सहस्रनेत्रप्रतिमो महात्मा यमस्य नेता नमुचेश्च सन्ता पितुर्निदेशादनघस्वधर्मं वासं वने दाशरथिश्चकारा स विहाय भोगानचरद्वनेशो नेशे बलस्येति चरेदधर्मं भूपाश्चनाभागभगीरथादयो महीमिमां सागरान्तां विजित्य सत्येन तेऽप्यजयं स्तात लोकान् नेशे बलस्येति चरेदधर्मम् अलर्कमाहुर्नरवर्यसन्तम् सत्यव्रतं काशिकरुषराजं विहाय राज्यानि वसो नि चैव नेशे बलस्येति चरेदधर्मम् धात्राविधिर्यो विहितः पुराणैस्तम् पूजयन्तो नरवर्यसन्तः सप्तर्षयः पार्थ दिवि प्रभान्ति नेशे बलस्येति चरेद धर्मम् चरेदधर्मम् महाबलान्पर्वतकूटमात्रान्विषाणिनः पश्य गजान्नरेन्द्रा स्थितान्निदेशे नरवर्यधातोर्नेशे बलस्येति चरेद धर्मम् सर्वाणि भूतानि नरेन्द्र पश्या तथा यथावद्विहितम् विधात्रा स्वयोनितः कर्म सदाचरन्ती नेशे बलस्येति चरेदधर्मम् सत्येन धर्मेण यथार्हवृत्या ह्रिया तथा सर्वभूतान्यतीत्या यशश्च तेजश्च तवापि दीप्तम् विभावसोर्भास्करस्येव पार्थ यथा प्रतिज्ञं च महानुभावा कृच्छ्रं वने वा समिमं निरुश्या ततश्रियं तेजसा तेन दीप्ता मादास्यसे पार्थिव कौरवेभ्यः वैशम्पायनवाचा तमेवमुक्त्वा वचनं महर्षिस्तपस्वि मध्ये सहितं सुहृद्भिः आमन्त्र्यधौम्यं सहितांश्च पार्थांस्ततः प्रतस्थे दिशमुत्तरां सह इति श्रीमहाभारते वनपर्वणि अर्जुनाभिगमनपर्वणि द्वैतवनप्रवेशे पञ्चविंशोऽध्यायः